श्रीहरये नमः अत तृतीयोऽध्यायः राजोवाच परस्य विष्णोरीशस्य मायिनामपि मोहिनीं मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः नानोत्तृप्येजुषन् युष्मद्वचो हरिकथामृतं संसारतापनिस्तब्धो मर्तयस्तत्तापेषजम् अन्तरिक्ष ये भेर्भूतानि भूतात्मा महाभूतैर्महाभुजः ससर्जोच्चावचान्त्याद्य स्वमात्रात्मप्रसिद्धये एवं सृष्टानि भूतानि प्रविष्टः पञ्चदधुभिः ये, ये गदादशधात्मानं विभजञ्जुषते गुणान् गुणैर्गुणान् स भुञ्जान आत्मप्रत्योदितैः प्रभुः मन्यमान इदं सृष्टम् आत्मानमिक सज्जते कर्माणि कर्मभिः कुर्वन् स निमित्तानि देहबृद् तत्तत्कर्मफलं गृह्णन् भ्रमतीह सुखेतरं इत्थं कर्म गतिर्गच्छन् बह्वभद्रवहाः पुमान् अभूतसंप्लवात्सर्गम् प्रलयावनुस्नुतेवसः धाधूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् अनादिनीतनकालो ह्यव्यक्ताय अपकर्षति तत वर्षाह्यनावृष्टेर्भविष्यत्युल्भणापुवि तत्कालोपचितोष्णार्को लोकान् स्त्रीन् प्रतैपिष्यति पादाळतळमारभ्य सङ्कर्षणमुखानलहा धगन् ऊर्ध्वसिको विश्वद्वर्धते वायुनेरितः सांवर्तको मेघगणम् वर्षति स्म सतं समाह धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् तदो विजायमुत्सृज वैराजः पुरुषो नृप अव्यक्तं विसते सूक्ष्मं निरिन्दनयिवानलः वायुना हृतगन्धाभूः सलिलत्वाय कल्पते सलिलं तद्ध्रुतरसं ज्योतिष्वायोपकल्पते हृतरूपं तु तमसं वायौ ज्योतिः प्रलीयते हृतस्पर्शोऽवकाशेन इन्द्रियाणि मनोबुद्धे सखवैकारिकैनृपं प्रविशन्ति ह्यहङ्कारं स्वगुणैरगमात्मनि एषा माया भगवता सर्गस्थित्यन्तकारिणी त्रिवर्णा वर्णितास्माभिः किं भूय श्रोतुमिच्छसि यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः मा तरन्त्यञ्झत्स्थूलदीयो महर्षयिदमुच्युतां प्रबुद्ध उवाच कर्मण्याभमाणानां दुःखहत्यै सुखाय च मिथुनीचारिणां नृणा नित्यार्थिधेन वित्तेन दुर्लभेन आत्मनृत्युना गृहापत्याप्तपशुभे का प्रीतिस्सादिदैश्चलैः एवं लोकं परं विद्यान्न परं कर्म स तुल्याति स यथा मण्डलवर्तिना तस्माद्गुरुं प्रपद्येद जिज्ञाशु श्रेयमुत्तमं शाब्दे परे च निष्णातम् ब्रह्मणि उपसमाश्रयं तत्र भगवतान् धर्मान् शिक्षेत् गुर्वात्मदैवतः अमायया अनुवृत् वृत्यायै हरिः सर्वतो मनसो सङ्घ माधौ सङ्कं च साधुषो दयां मैत्रीं प्रश्रयं च भूतेष्वद्धायतोचितं शौचं तपस्तिक्षां मौनं स्वाध्यायमार्जवं ब्रह्मचर्यम् अहिंसां समत्वं द्वन्द्वसंज्ञयोः सर्वत्र आत्मेश्वरान्वीक्षां कैवल्यम् अनिकेतथां विविक्तचीरवसनं संतोषं येन केनचित् श्रद्धां भगवते शास्त्रे निन्दामन्यत्र मनोवाकर्मदण्डं च सत्यं समधमावपि श्रवणं कीर्तनं ध्यानं हरे अद्भुतकर्मणः जन्मकर्मगुणानां च तदर्थे किल चेष्टितम् इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियं धारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनं एवं कृष्णात्मज्ञातेषु मनुष्येषु च सौहृदं परिचर्यां चोभयत्र मगत्सूनृषु साधुषु परस्परानुकथनं पावनं भगवत्यशख मिथो निभृतिर्मित आत्मनः स्मरन्तः स्मारयन्तश्च गौगहरं हरिम् भक्त्या सञ्जातया भक्त्या विप्रत्युत्पुलकां धनुं क्वचित् रुदन्ति अच्युतचिन्त्या क्वचित् हसन्ति नन्दन्ति वधन्त्यलौकिकाः नृत्यन्ति गायन्त्यनुशीलयन्ति अजं भवन्ति तूष्णीं परमेत्यनिर्वृताः इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्तयां नारायणपरो मायाम् अञ्जस्तरतिधुस्तरां राजोवाचां नारायणाभिधानस्य ब्रह्मणः परमात्मनः तामर्हत नो वक्तुं यूयं हि ब्रह्मवित्तमाः पिप्बलायन उवाच स्थित्योद्भवप्रलयहेतु अहेतुरस्य यत् स्वप्नजाग्रदु शोक्तिषु सद्बहिश्च देहेन्द्रियासु हृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र नैतन्मनो विशति वा गुतचक्षुरात्मा प्राणेन्द्रियाणि च यथा नलमर्चिष स्वाहा शब्दोऽपि भूतकनिषेधतयात्ममूलम् शुद्रह्मकानहमिति प्रवदन्ति जीवं ज्ञानक्रियार्थफलरूपतयोरुषक्तिं ब्रह्मैव भाति सदसच्चतयोः परं ये नात्मा जा जाननमरिष्यति दैधते स न क्षीयते सवन विव्यविचारिणां ह्ये सर्वत्र शश्वत्तनपायिबुपलब्धिमात्रम् प्राणो यतेन्द्रियबलेन विकल्पितं सत् अण्डेषु पेशिषु तरुष्व विनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्रह। सन्नेय च प्रसूप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः यर्ह्य जनाभ चरणैक्षणयोर्भक्त्या चेतो चेतोमलानि विधमेद्गुणकर्मजानि तस्मिन् विशुद्धमुपलभ्यत आत्मतत्त्वं साक्षात् यथामलदृशो सवितृप्रकाशक राजोवाच कर्मयोगं वतनः पुरुषो येन संस्कृतः वितूये सुकर्माणि नैष्कल्यं विन्दते परम् एवं कृष्णं पूर्वं अभ्रुचं पितुरन्ति के नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यत आविर्होत्र उवाच कर्मा कर्म विकर्मेति वेदवादो न लौकिकः वेदस्य च ईश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः परोक्षावाधो वेधोऽयं बालानाम् असासनं कर्म मोक्षाय कर्माणि विधत्ते ह्य गतं नाचरेत्यस्तु वेदोक्तं स्वयमज्ञो जितेन्द्रियः विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सहा वेदोक्तमेव कुर्वाणोनि शङ्खोऽर्पितमीश्वरे नैष्क्रम्यां लभदे सिद्धिं रोचनार्ताफलश्रुतिः यय आसुहृदयग्रन्थिं निर्जिहीषः परात्मनः विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवं लब्धानुग्रह आचार्यात् तेन, लब्धानु तेन सन्दर्शितागमः महापुरुषमभ्यर्चेन् मूर्त्याभिमतयात्मनः सूचिस्सम् मुखमासीनः प्राणसंयमनादिभिः पिण्डम् विचोद्य कृतरशोर्चये धरिम् अर्चादौ हृदये चापि यदा लब्धोपचारकैः द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्यशासनम् ाद्यादीनुपकल्प्याथ सन्निधाभ्यसमोहितः हृदादिभिः कृतन्यायसो मूलमन्त्रेण चार्चयेत् साङ्घोपाङ्गं सपार्षदां सा तां स्वमन्त्रतः पात्यार्घ्य आचमनीयाद्यै स्नानवासो विभूषणैः गन्धमाल्याक्षतश्रग्भिूयदीपोपहारहैः साङ्गं सम्पूज्य विधिवत् स्थैवै स्तुत्वा न मेत् आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजये धरेः शेषतामादाय शिरसि स्वाद्धाम्निमुद्भास्य सत्कृतम् एवम् अग्न्यर्गतो योधौ अतितो हृदये च यः यजतीश्वरमात्मानम् अचिरान्मुच्यते हि सः इति श्रीमद्भागवते मखापुराणे एकादशस्कन्ते धृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्दा गोविन्द सद्गुरुनाथमहराज् की जय